स्वर्गम् फिफ्टीन् अधभूतानि वार्त्राघ्न शरेभ्यस्तत्र भेजे दिशः परित्यक्त महेष्व सा च सा च मोः अपश्यद्भिरिवेशानम् रणन्निवृदे गणैः मुह्यत्येव हि सम्भ्रमज्वलितं मनः खण्डिताशंसया तेषां पराङ्मुखतया तया आविवेश्य कृपाकेतौ कृतोच्चैर्वानरं नरम् आस्थामालम्ब्यनीतेषु वशं क्षुद्रेश्वरादिषु व्यक्तिमायादिमहदाम् माहात्म्यमनुकम्बया ससासि सासु सुसासो यया ये येयायया ययः ये ये ललौ लीलां ललोलोलशी शशिशुशी शशन् त्रासजिह्मं यदश्चैदान्मन्दमेवान्वियायसः नादिपीडयितुं भग्नानिच्छन्ति हि महौजसः अथाग्रेह सदा सा चिस्थितेन स्थिरकीर्तिदा सेनान्या ते जगदिरे किञ्चिदायास्तचेतसा माविहासिष्टसमरं विहासिष्टसमरं समरन्तव्यसंयदः क्षदं क्षुण्णा सुरगणैरगणैरिव किं यशः विवस्वदंशु संश्लषद्विगुणी कृदते जसः अमी वो मोखमुद्गूर्णा हसन्दिव महासयः वने वने वनसदां मार्गं मार्गमुपेयुषाम् णैर्बाणैः समासकृतं सङ्गेशं केन शाम्यधि पादितोत्तुङ्गहात्म्यैः संहृता यदकीर्तिभिः गुर्वीं कामापदं हन्तुं कृदमावृत्तिसाहसंयं न वा न गो धरसंस्थो न राक्षसः नासुखोऽयं न वा भोगो धरणिस्थो हि राजसः मन्दमस्यन्निशुलतां घृणया मुनिरेशवः प्रणोदत्यागदावत्न्यं जघनेषु पशूनिव ननो ननुन्नो नुनो नो नाना ननु नुन्नो नुन्नो ननुन्नेनो ना नानेना ना ना नुन्ननुन्ननुत ना वरं कृदध्वस्तगुणादत्यन्तमगुणः पुमान् प्रकृत्याह्यमणिःश्रेयान्नालङ्कारश्चितोपलः स्यन्दनानो च दुरगासुरे भावा विपत्तयः स्यन्दनानो च दुरगासुरे भावा विपत्तयः भवद्भिरधुनारादि परिहापिदपौरुषैः हृदैरिवार्कनिष्पेदै प्राप्तपङ्गो दुरुत्तरः वेत्रशागकुजे शैले ले, ले शैजे कुकशात्रवे यात्र किं विदिशो जेदुं तुञ्जे शो दिवि किन्तया अयं दृष्ट पृष्ठानरादिना इच्छदिषत्युदाचारान् धाराणिव निगोपिदुम् ननु हो मदना राघो कोरानाधमहो नुना तय दादवदाभिमा माभिधा दा बददायत किं त्यक्दापास्तदेव मानुष्यकपरिग्रहैः ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता निशितासिरतो भीको न्ये च ते मरणारुच सारदो न विरोधी नः भरवानुदा तनुवारभसो स्वानधीरो विनतो रसा चारुणारमधे जन्ये को भीदो रसिदाशिनि विभिन्नपादिताश्वीयनिरुद्धरथवर्मनि हदद्युपनगष्ट्युधरुधिराम्बुनदाकुले देवाकानि निका देवा वा देवाहि का स्वकाहि वा काकारे भरे भा काका निःस्वभव्यभस्वनि प्रनृत्त शववित्रस्त मारुधापूर्णतोणीरविकृष्टहदसादिनि सत्वरदिदे नित्यं सद रामर्षनाशिनि त्वराधिकसन्नदे रमकत्वमकर्षति असुरे विधायिनि महाहवे युष्माभिरुन्नदिं निदं निरस्तमिह पौरुषम् इति शाश्वति सेनान्यां गच्छतस्ताननेकधा निषिध्य हसदा किञ्चित्तस्थे तत्रान्धकारिणा मुनीषु दहनातप्ता लज्जया निविवृत्सदः शिवः प्रह्लादयामास तान्निषेध हिमाम्बुना दूनास्तेरिबलादूना निरेभा बहुमेनिरे भीदाशिदशराभिदा शङ्करं भीदा तत्र शङ्करं महेषु जलधौ शत्रोर्वर्त्माना दुरु तरे प्राप्य पारमिवेषान माश्वासपताकिनी सबभारणाभेदां च मुं पश्चादवस्थितां पुरसूर्यादपावृतां छायामिव महातरुः मुञ्जीशे चराञ्जिष्णौ पिनाकस्वनपूरीदः दध्वानध्वन यन्नाशास्फुडन्निव दराधरः तद्गणा ददृश्युर्भीमं चित्रसंस्था इवाचलाः विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः परिमोहयमाणेन शिक्षा लाखवलीलया जैष्णवी विशिखश्रेणि परिजह्रे पिनाकिना अवद्यन्पत्रेण शम्भो सायकैरवसायकैः पाण्डवः शिक्षया रणशिक्षया चारो ची चारु चुञ्चुश्चिरारेची चञ्चिररुचारुचः चचार रुचिरश्चारु चारैराचार चञ्चुरः स्फुरतिशङ्गमौर्वीकम् धुनानः स दृदोल्कानलयोगेन तुल्यमंशुमदाबभौ पार्थबाणाः पशुपदेरावग्रोर्विशिकावलिं पयो मुच इवा रन्ध्रा सावित्री मंशु संहतिम् शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना रुरोधमार्गणैर्मार्गम् तव नस्य त्रिलोचनः तेन व्याधेनिरे भीमा भीमार्जनफला ननाः ननानुकम्ब्यविशिका शिखाधरजवाससः युवियद्गामिनीतार सम्भ्राव विहदश्रुदिः हैमीषु विद्युदामिव संहतिः विलङ्क्यपत्रीणां पङ्क्तिं भिन्नशिवशिलीमुखैः ज्यायो वीर्यमुपाश्रित्य न जगदी शरणे युक्तो हरिकान्तःसुधासिदः धनवर्षी कृदाशंसो नागराज इवा विभली बिफली कृतयत्नस्य क्षतबाणस्य शम्भुना गाण्डीवधन्वनखेभ्यो निश्चक्रामुदाशनः सपि शङ्गजडा वलि किरन्नुरुते जःपरमेण मन्युना ज्वलितौषधि जादवेदसा दसा हिमशैलेन समं विदिद्युते शदशो विशिकानवद्यते भृशमस्मै रणवेगशालिने प्रधयन्ननिवार्य वीर्यदां प्रजे गायेषु मखातुकं शिवः शम्भोर्धनुर्मण्डलदप्रवृतं तं मण्डलादंशु मिवांशु भर्तुः निवारयिष्यन् विदधे सिदाश्वः िलीमुखच्चायवृतां धरित्रीं कनं विदार्यार्जुनबाणपोगं ससारबाणो युगलोचनस्य कनं विदार्यार्जुनबाणपोगं ससारबाणो युगलोचनस्य रुजन्महेषून् बहुधाशुपादिनो मुखुशरौखैरपवारयन् दिशः चलाचलोनेक इव क्रियावशान् महर्षिशङ्खैर्बुबुधे धनञ्जयः विकाशमीयोर्जगदीशमार्गणा विकाशमेयोर्जगदीशमार्गणाः विकाशमीयोर्जगदीशमार्गणा विकाशमीयोर्जगदीशमार्गणाः सम्पश्यदामिति शिवेन विदायमानं लक्ष्मीवदः क्षितिपदे स्तनयस्य वीर्यम् अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्जिततरं बिभराम्बूवुः यदि श्रीभारवि कृतौ किरार्जुनीये महाकाव्ये नाम पञ्चदशः